नित्यानन्दकरेभय करे सौन्दर्य रत्नाकरे निर्धूताखिलघोरपावन करेक्षमाहेश्वरी प्रालेयाचलवंश पावन करे काशीपुराधेश्वरी क्षान्देहि कृपावलम्बन करे माता न पूर्णेश्वरी नानारनविचित्रभूषण करे हे माम्बराडम्बरी मुक्ताहार विलम्बवान् विलस वक्षोजकुम्भान्तरी काशीरा गुरुवासि तारुचि करे काशी, काशी पुराधीश्वरी भिक्षा देहि कृपावलम्बन करि मातान्न पूर्णेश्वरी योगानन्द करिपोक्षय करि धर्मार्थ निष्ठा करि चन्द्रार्कानलभाषमानलहरी त्रैलोक्य रक्षाकरीं सर्वैश्वर्यसभस्तवाञ्छितकरीं काशीपुराधीश्वरीं भिक्षां देशि कृपावलम्बनकरी माता न कैलासाचलकन्दरालय करी गौरी शुमाशङ्करी कौमारि निगमार्थ गोचर करि ओङ्कार वीजाक्षरी मोक्षद्वारकपाठपाठन का करि काशीपुराधीश्वरी भिक्षा देहि कृपावलम्बन करे मातान्न पूर्णेश्वरी दृशादेशप्रभूत पावन करे ब्रह्माण्ड भाण्डोदरी लीलानाटकसूत्रभेदन करे विज्ञानदेपाङ्कुरी समना प्रसादन करे काशी पुराधीश्वरी भिक्षां देहि कृपाविलम्बन करे माता न पूर्णेश्वरी सर्वजरेश्वरी भगवति, भगवती माता न पूर्णेश्वरी समान कुन्तलहरि नित्यान्नदारेश्वरी सर्वानन्दकरी दशाशुभकरे काशीपुराधीश्वरी भिक्षान्देहि कृपावलम्बन करे मातान्न पूर्णेश्वरी आदिशान्तसमस्तवर्णनकरे शम्भोस्त्रि भावाकरी काश्मीरात्रिजनेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी कामाकाङ्क्षकरी जनोदय करी काशीपुराधीश्वरी देक्षान्दिहि कृपावलम्बन करी माता न ना पूर्णेश्वरी दर्वीश्वविचित्ररत्नखचिता दक्षे सहचरी सौभाग्यवाहेश्वरी भक्ताभीष्टकरीदृशाशुभकरीं काशीपुराधीश्वरीं भिक्षां देहि कृपावलम्बन करी माता न पूर्णेश्वरीं चन्द्रार्का नलकोटिकोटिसदृशां चन्द्रांशुबिम्बाधरि समान धरे, चन्द्रार्कासमानकुण्डलधरि चन्द्रार्कवर्णेश्वरी माला पुस्तकपाशकाङ्कुशधरे काशीपुराधीश्वरी दीक्षां देहि कृपावलम्बन करे मातान्नपूर्णेश्वरी क्षत्रत्राणकरि महाभय करे माता कृपासागरे साक्षान् मोक्षकरे सदाशिवकरे विश्वेश्वर श्रीधरे दक्षा क्रन्दकरि निरामय करे काशीपुराधीश्वरी दीक्षां देहि कृपावलम्बनकरे दातान्नपूर्णेश्वरीम् अन्नपूर्णे जगत्पूर्णिम् अन्नपूर्णे सदा पूर्णे शङ्करप्राणवल्लभे जानवैराग्यसिद्ध्यरथं दीक्षां देहि च पार्वतीम् माता मे पार्वती देवी पिता देवो महेश्वर बान्धवा शिवभक्ता च सदेशो भुवनत्रयं सदेशो भुवनत्रयं सदेशोभुवनत्रयम्